अथ विश्ते वैशंपाएन उवाचा एवंता महाराज कुी पांडुम भूणा मृषभम वीरम तदा भूमिपति पति नमासी धर्म वक्तुमेवं कथञ्चन धर्मपत्नीमभिरताम् त्वयि राजीवलोचने त्वमेव तु महाबाहो मय्यपत्यानि भारत वीरवीर्योपपन्नानि धर्मतो जनयिष्यसि स्वर्गं मनुजशार्दूला गच्छेयं सहिता त्वया अपत्याय च मां गच्छमेव कुरुनन्दना न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरं त्वत्तः प्रतिविशिष्टश्च कोन्योऽस्ति भुवि मानवः इमां च मन् पौराणीं शृणु कथाम् परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् व्युषिताश्व इति ख्यातो बभोव किल पार्थिवः तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे उपगमंस्ततो देवाः सेन्द्रादेवर्षिभिः सह अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः व्युषिताश्वस्य राजर्षेः ततो यज्ञे महात्मनः देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा व्युषिताश्वस्ततो राजन्